नमस् सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति मध्ये भवतां सर्वेषां स्वागतम् इदानीम् अद्य एकं श्लोकं श्रावयितुम् सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे पृथक् आत्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेन अमृतत्वम् एति पुनः वदामि अत्र सर्वजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे पृथक् आत्मानं मत्वा च मत्वा जुष्टस्तेनामृतत्वम् ए इति श्लोकः अस्ति तर्हि अस्मिन् जगति ये मनुष्याः सन्ति तेषु केचन जनाः धनमिच्छन्ति केचन जनाः तत्र नाम भवतु यशः भवतु ते अथवा तत्र पदवीं वा इच्छन्ति अथवा लौकिकवस्तु यत्किमपि वा भवतु तत् इच्छन्ति अत्र अस्मिन् जगति ये जीवाः सन्ति तेषां भिन्न मानसिकप्रवृत्तयः सन्ति तत्र सर्वे जीवाः ये जीवाः लोके सन्ति तेषां सर्वेषां मानसिकप्रवृत्तयः अथवा मानसिकप्रवृत्तिः मानसिकप्रवृत्तिः मनुष्याणां मानसिकप्रवृत्ति प्रवृत्तयः भिन्नाः भवन्ति तेषाम् आशयः मानसिक आशय आशयाः भवन्ति तेषां प्रा तेषां मानसिक स्थूलतां प्रति इच्छति अथवा इच्छति अथवा स्थूलवस्तु इच्छति कदाचित् मनुष्याः मनुष्याणां मानसिक आशयः अथवा प्रवृत्तिः सूक्ष्मं सूक्ष्मं वस्तु अपि इच्छति परन्तु किं स्मर्तव्यम् इति चेत् अस्मिन् ब्रह्मचक्रे तत्र परमात्मा केन्द्रे वर्तते पुरुषोत्तमः केन्द्रे वर्तते ब्रह्मचक्रे तस्य परितः तत्र तस्मिनेव चक्रे सर्वे जीवाः भ्रमन्ति सर्वे जीवाः भ्रमन्ति सर्वेषां गतिः अस्ति सर्व तत्र सर्वाणि वस्तूनि अस्मिन् जगति गतिशीलयुक्तानि सन्ति य इत्युक्ते तत्र जडवस्तु यदस्ति क्षितितत्त्वम् इति यद् जडवस्तु अत्यन्तं जडं वर्तते तस्मिन् अपि तादृशवस्तूनि अपि गतिः अवश्यमेव अस्ति यद्यपि वयं द्रष्टुं न शक्नुमः परन्तु तस्मिन्नपि गतिः अस्ति अस्मिन् जगति ये सन्ति सर्वेषु गतिः अस्ति ये मनुष्याः सन्ति तेषु अपि गतिः वस् अस्ति मनुष्याणां मनः तु इतोपि वर्धितं वर्तते तादृशमनसि भिन्नभिन्नमानसिक आशयः भिन्न आशयः भाषयाः सन्ति भिन्न मानसिकप्रवृत्तयः सन्ति तेषु केषां मानसिकप्रवृत्तिः धनं प्रति भवति तत्र अन्येषां नाम्बप्रति वा भवतु यशः प्रति वा भवतु यत्किमपि भवतु लौकिकवस्तु प्रति इति तादृशं तेषां मानसिकप्रवृत्तिः अस्ति चेत् तदानीं शनैः शनैः शनैः तेषां मनः अधः पतति तर्हि अन्ततो गत्वा ते जडवस्तु एव भवन्ति इत्युक्ते तेषां मनसः अधोगतिः यदा भवति तदानीम् अग्रिमजन्मनि तदनुगुणं तेषां शरीरं लभ्यते अत्र अस्मिन् जगति सर्वा जीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसः भ्राम्यते ब्रह्मचक्रे हंसः इत्युक्ते जीवः हंसः इत्युक्ते जीवः तत्र सर्वे जीवाः इतः ततः भ्रमन्तः सन्ति तः ततः भ्रमन्तः सन्ति कदाचित् ते परमपुरुषस्य समीपं गच्छन्ति कदाचित् ते दूरं गच्छन्ति तत्र तेषां मानसिकप्रवृत्तीनां प्रवृत्तीनाम् अनुसारम् अथवा प्रवृत्तिः अनुसारं ते परमात्मनः समीपं गच्छन्ति अथवा परमात्मनः दूरं गच्छन्ति परन्तु सर्वे तु भ्रमन्तः सन्ति तर्हि चक्रं भ्रमचक्रम् इति यद् वयं वदामः यथा वयं पश्यामः अणुः परमाणुः अस्ति तस्य पुरतः एलेक्ट्रान्स् ते भ्रमन्तः भवन्ति एवं तत्र सूर्यमण्डले तत्र मध्ये सूर्यमध्ये वर्तते तत्र अन्ये गृहाः तत्र भ्रमन्तः यथा भवन्ति चक्रमध्ये तत्र सौरमण्डले यथा तत्र ग्रहाः भ्रमन्ति एवम् अत्र ब्रह्मचक्रे पुरुषोत्तमः केन्द्रे वर्तते सर्वे जीवाः यता एलेक्ट्रान्स् परमाणोः पुरतः भ्रमन्ति तथा पुरुषोत्तमः केन्द्रे वर्तते सर्वे जीवाः भ्रमन्तः सन्ति अत्र कोऽपि पापः पापी भवितुमर्हति कोऽपि साधुः भवितुमर्हति सर्वेषां जीवानां मनः वर्तते मनसि विषयः समीचीनः विषयः भवितुमर्हति अथवा असमीचीनः विषयः अपि भवितुमर्हति परन्तु सर्वे तु ब्रह्मचक्रे सन्ति कोऽपि ब्रह्मचक्रस्य बहिः न सन्ति कोऽपि ब्रह्मचक्रस्य बहिः न अस्ति ब्रह्मचक्रस्य बहिः किमपि नास्ति वयं तु वयं किम् उक्तवन्तः यत् एतद् इयं सृष्टिः परमात्मनः चित्ते जायमाना अस्ति अतः किमपि तस्य बहिः किमपि नास्ति कोऽपि यः बहु पापं कृतवान् अस्ति सः एवं चिन्तयेत् यत् अहं दूरं बहु दूरं गच्छामि दूरप्रदेशं गच्छामि कोपि माम् अन्वेष्टुं न शक्नोति इति चिन्तयितुं शक्नोति परन्तु तथापि यद्यपि सः दूरदेशं गच्छति तथापि सः ब्रह्मचक्रे एव अस्ति परमात्मनः परमात्मनः दर्शने एव सः अस्ति तत्र यद्यपि तः सः गूढरीत्या स्थातुम् तेन बहु पापकर्माणि कृतानि बहु दीर गच्छति तथापि सः तु ब्रह्मचक्रे एव अस्ति ब्रह्मचक्रात् बहिः नास्ति अस्मिन् जगति यत्किमपि सृष्टं वर्तते तत्सर्वम् अपि ब्रह्मचक्रे एव भ्रमन्तः सर्वे भ्रमन्तः सन्ति अत्र अत्र जगति कालः अस्ति कालः अस्ति व्यक्तिः अस्ति अपि च देशः अपि अस्ति तत्सर्वमपि ब्रह्मचक्रे एव अस्ति ब्रह्मचक्रस्य अन्ते एव अस्ति ब्रह्मचक्रात् बहिः किमपि नास्ति किमपि ब्रह्मचक्रात् बहिः किमपि स्थातुं न शक्नोति अस्मिन् जगति यत्किमपि कर्माणि वयं कुर्मः तदपि ब्रह्मचक्रे विश्वब्रह्माण्डे एव वयं कुर्मः कुत्रचित् वयं गाढरूपे गाढरूपेण स्थातुमिच्छामः चेत् तादृशं स्थलं किमपि नास्ति यद् परमान परमात्मनः दृष्टि पति नास्ति इत्युक्ते सर्वं तस्य दृष्टिपत् एव सर्वम् अतः गूढरीत्या वयं कुत्रचित् स्थातुं न शक्नुमः अतः कोऽपि एवं चिन्तयति अहं बहु गच्छामि तेन बहु पापं कृतं पापकर्माणि कृतानि सः चिन्तयत् यदहं बहु दूरदेशं गत्वा अहं तिष्ठामि इति सः चिन्तयितुं शक्नोति तर्हि तादृशपुरुषः वस्तुतः मूर्खः अस्ति यतोहि सः न जानाति अत्र सर्वं तु ब्रह्मचक्रे एव अस्ति ब्रह्मचक्रात् बहिः किमपि नास्ति अतः अत्र अत्र ये सन्ति ये, ये जीवाः सन्ति ते सर्वे हंसः अर्थात् जीवः सर्वे जीवाः ते सर्वे जीवाः अस्मिन् भ्रमचक्रे भ्रमन्ति अस्मिन् हंसः भ्राम्यते ब्रह्मचक्रे ब्रह्मचक्रे तेषां गतिः अस्ति अत्र ब्रह्मचक्रे ते जीवन्ति कथं जीवन्ति इति चेत् अत्र जीवनार्थमपि शक्तिः परमात्मतः एव शक्तिः लभ्यते यतोहि अन्नं जलं यत् यत् यत्किमपि वयं स्वीकुर्मः यस्य कस्यचित् वयं सेवनं कुर्मः तदपि तदपि परमात्मातः एव आगतम् अस्माकं वाक्शक्ति यदस्ति वाक्शक्ति वाक्शक्ति तद्वाक्शक्ति तथा शक्ति अपि परमात्मातः एव शक्ति लब्धा hmm. तादृशशक्तिम् एव वयं प्रयुज्य परमात्मनः विरुद्धे तर्कं कुर्मः कुतर्कं कुर्मः एतत् सर्वं सः परमात्मा तु शृणोति एतत् सर्वं सः शृण्वन् अस्ति तस्य शक्तिं स्वीकृत्य एव वयं कुर्मः परमात्मा नास्ति चेत् वयं न तर्हि तत्र कदाचित एवमपि भवति यद् जनाः ये जनाः बहु किमपि पापं पापकर्माणि कृतवन्तः कदाचित् तेषाम् अन्तश्चक्षुः उद्घाटितं भवति ते, ते चिन्तयन्ति हे, पा, हे पा, परमात्मा शमस्व मया बहु पापकृतं पापकर्माणि कृतं पापकर्माणि कृतानि समां याचे इति कदाचित् सः वक्तुमपि शक्नोति तर्हि यः पापी अस्ति सः यदि चिन्तयेत् अहम् आकाशे गूढरूपेण तिष्ठामि इति चेत् आकाशे स्थातुं आकाशः अपि ब्रह्मचक्रे एव अस्ति कोऽपि चिन्तयत् अहं समुद्रे बहु समुद्रं बहु बृहत् समुद्रं बहु बृहत् अस्ति समुद्रस्य अन्ते अहं तिष्ठामि इति कोऽपि पापि चिन्तयति यथा तत्र दुर्योधनः समुद्रस्य अन्तः गत्वा तिष्ठवा स्थितवान् एवं कोऽपि चिन्तयत् यत् अहं समुद्रे तिष्ठामि इति तर्हि तादृशसमुद्रमपि भ्रह्मचक्रे एव अस्ति कोऽपि चिन्तयति यद् अहं हिमालयस्य अथवा पर्वतस्य महान् पर्वतस्य गुफायां गूढरूपेण तिष्ठामि इति तादृश पर्वतस्य गुफा अपि ब्रह्मचक्रे अतः अस्मिन् जगति वयं गूढरूपेण कुत्रापि स्थातुं न शक्नुमः तर्हि यः ये पा पापिनः सन्ति तेषां कृते औषधं किं पापस्य निवारणं कथं भवति तर्हि पापस्य निवारणं कथं भवति इति चेत् तत्र समर्पणं समर्पणम् आवश्यकं यदा अन्तः चक्षुः उद्घाटितं भवति वयं तु दृष्टवन्तः पौराणिककथासु अपि यथा बहुत्र केचन पुरुषः तत्र चौर्यकार्यं कृतवान् तदनन्तरं कदाचित् तस्य मनसः परिवर्तनं जायते तर्हि सः ऋषिः अपि जातः इति अपि वयं दृष्टवन्तः तर्हि ये येन पुरुषेण पापं कृतं तस्य कृते औषधं किम् अस्ति इति चेत् तत्र शरणागतिः एव औषधं तर्हि यः परमात्मनः समीपं गत्वा वदति हे परमात्मा मया दोषः कृतः अस्ति अहं तु भवतः समीपात् एव मया आगतम् अहं मया दोषः कृतः अस्ति क्षमस्व इति एवं सः क्षमां याचते चेत् तदानीं सः पवित्रः सः पवित्रः पवित्रः भवति सः पवि तस्य किं पुण्यं पुण्यमिति तस्य शुद्धीकरणं जायते सः सः स्वच्छं भवति तर्हि परमात्मा तु परमात्मनः हस्तः तु पुरतः अस्ति वयं न पश्यामः अस्माकम् अहम्भावे वयं तिष्ठामः तर्हि अहङ्कारस्य शस्त्ररूपेण स्वीकृत्य वयं तिष्ठामः चेत् अहमेव महान् इति एवं रीत्या तिष्ठामः चेत् तदानीं परमात्मनः कृपावृष्टिः न लभ्यते परन्तु यदा अहं भावस्य त्यागं कुर्मः अहङ्कारभावस्य त्यागं कुर्मः परमात्मनः समीपे तदानीं तस्य कृपृष्टेः पात्रं वयं भवामः तर्हि सर्वे जीवाः अस्मिन् ब्रह्मचक्रे भ्रमन्तः सन्ति यद्यपि वयं दूरं गन्तुं प्रयत्नं कुर्मः किमर्थं वयं परमात्मातः दूरं गन्तुं प्रयत्नं कुर्मः यतोहि पृथगात्मानं प्रेरितारञ्च मत्वा यतोहि वयं चिन्तयामः अहं भिन्नः अस्मि परमात्मा भिन्नः भिन्नः अस्ति वयं द्वयमपि भिन्नसत्ता इति यदा वयं चिन्तयामः पृथक् रूपेण वयं चिन्तयामः पृथक् अस्तित्वम् इति यदा वयं चिन्तयामः अहम् अस्मि परमात्मा अस्ति इति एवं रीत्या वयं चिन्तयामः तदानीं तत्र किं भवति इति चेत् तदानीं वयं सर्वदा परमात्मातः दूरमेव भवामः यावत्पर्यन्तम् एतादृश पृथक् अस्तित्वं भवति अहं भिन्नः अस्मि परमात्मा भिन्नः अस्ति इति एवं रीत्या यदा चिन्तनम् अस्ति एवं रीत्या अस्माकं मानसिकप्रवृत्तिः अस्ति तावत्पर्यन्तम् अस्मिन् भ्रमचक्रे वयं भ्रमन्तः एव स्मः इत्युक्ते तत्र जन्म भवति जन्म भवति मरणं भवति पुनः जन्म भवति पुनः मरणं भवति एवं रीत्या भ्रमन्तः एव भवामः वयं चिन्तयामः अहमस्मि सः अस्ति तर्हि एतादृशविचारः अस्माकं मनसि अस्ति अहं मया कृतं सर्वदा वयं शृण्मः अथवा वयमपि वदामः ओ मया एतत् मया इति अहङ्कारेण वयं वदामः मया इति एतादृश अहङ्कारभावः कदा इति चेत् यदा पृथक् अस्तित्वम् अस्ति अहं भिन्नः अस्मि परमात्मा भिन्नः अस्ति इति एवं विचारः अस्ति तदानीमेव एतादृशभावः भवति एतादृशभावना यदा भवति तदानीं वयं सर्वदा परमात्मातः दूरमेव भवामः तदानीम् मनः मनसः वर्धनं न भवति मनः इतोपि स्थूलं भवति परमात्मा तु तादृशभिन्नवस्तु नास्ति परमात्मा अस्माकम् अस्मा इत्युक्ते पृथक् सत्ता नास्ति वस्तुतः अस्मात् बहिः नास्ति परमात्मा अस्मात् बहिः नास्ति तर्हि परमात्मा कुत्र अस्ति इति चेत् प्रत्येकं वस्तुनि परमात्मा गाढरीत्या स्थितः अस्ति गाढरीत्या स्थितः अस्ति परमात्मा अस्माकं मनसि अपि अस्ति अस्माकं मनसः अन्ते गुप्तरूपेण अस्ति गाढरूपेण अस्ति यदा परमात्मना सृष्टिकृता तदानीं परमात्मा सृष्टिं कृत्वा तत्र एव सः तत्र गाढरूपेण तत्र तिष्ठति सः स्थितवान् गाढरूपेण स्थितवान् सृष्टिं कृत्वा तस्य अन्ते सः तर्हि वयं जानीमः तत्र सृष्टिः तु सृष्टेः सामग्री तु अस्ति तर्हि सर्वत्र सर्वत्र परमात्मा वर्तते सर्वस्मिन् वस्तूनि परमात्मा, परमात्मा अस्ति एव तस्य अन्ते परमात्मा अस्ति गाढरूपेण अस्ति अस्माकं मनसः अन्ते अपि परमात्मा गाढरूपेण गुप्तरूपेण अस्ति एव अतः परमात्मातः कुत्र वयं दूरं गन्तुं शक्नुमः तादृशस्थलम् अस्ति वा यत्र वयं दूरं गन्तुं शक्नुमः तर्हि एवं रीत्या पृथग्भावः यावत्पर्यन्तम् अस्ति तावत्पर्यन्तं जगति तु जन्ममरणं तु जायते एव यदा एतादृशपृथग्भावः नास्ति यदा वयं चिन्तयामः यद् मम अन्तर् परमात्मा वर्तते मम अन्तर् परमात्मा वर्तते मम पृथक् अस्तित्वं नास्ति मम पृथक् रूपेण इच्छा इच्छाः न सन्ति परमात्मनः याः इच्छाः ताः एव मम इच्छाः इति एवं, इच्छा एवं रीत्या यदा अस्माकं पृथक् अस्तित्वं पृथक् अहङ्कारः पृथक् पृथक् रूपेण भवनं नास्ति तदानीं तत्र किं भवति इति चेत् तदानीं तत्र परमात्मनः समीपं वयं गच्छामः तस्य समीपं वयं धावामः तस्य समीपं धावामः पृथक् प्रेरितारञ्च मत्वा यदा यदा एतादृशभावना अस्माकं मनसि भवति अहमस्मि मम इष्टः अस्ति परमात्मा आवां पृथक् सत्ते स्तः इति एतादृशभावना यदा भवति तदानीं पुनर्जन्म तु अवश्यं भवति अस्माकं मनसः स्थितिः कथमस्ति तदनुगुणम् अस्माकं मरणम् अथवा मरणं जा मरणं जायते पुनर्जन्म अपि जायते यदा यः यस्य पुरुषस्य अन्तश्चक्षुः उद्घाटितं भवति सः चिन्तयति परमात्मा मम अन्तर् वर्तते मम प्राणे सः प्राणः वर्तते तर्हि एतादृशविचारः यदा भवति तदानीं कुत्र वयं दूरं गन्तुं शक्नुमः तर्हि तदानीं किं भवति इति चेत् अस्माकं मनसि भिन्नाः इच्छाः अपगच्छन्ति तर्हि भिन्न अस्तित्वम् अपगच्छति तर्हि मयि तादृश इच्छा एव न नास्ति तादृश इच्छा नास्ति पृथक् अस्तित्वं नास्ति तर्हि तदानीं किं इति चेत् जुष्टस्ततस्तेन अमृतत्वम् तदानीं मनुष्यः अवगच्छति तर्हि परमात्मा मयि मम मनसः मनसि सः गुप्तरूपेण अस्ति तर्हि यदा तस्य कृपा भवति यदा परमात्मनः कृपा भवति तदानीं सः एवम् अवगच्छति यत् परमात्मा सर्वत्र वर्तते मयि अपि वर्तते मम मनसि सः गुप्तरूपेण तिष्ठति मम पृथक् अस्तित्वं नास्ति तर्हि परमात्मा मम पार्श्वे सर्वदा मया सह सः सर्वदा तिष्ठति इति वयम् अवगच्छामः तर्हि तदर्थं कृपा आवश्यकमस्ति जुष्टः जुष्टः इत्युक्ते उपकृतः उपकृतः इत्युक्ते ब्लेस्ड् इति अर्थः यदा अन्तःचक्षुः उद्गाटितः भवति यदा मुक्ति आकाङ्क्षा भवति तदानीं सद्गुरुप्राप्तिः भवति तर्हि तदानीं यदा एतत् सर्वम् अवगच्छति मनुष्यः तदानीं परमात्मनः कृपाविष्टेः पात्रं भवति उपकृतः भवति तर्हि सः अवगच्छति यद् अहं पृथक् नास्मि अहं पृथक् सत्ता नास्मि परमात्मा तत्र सः सर्वं जानाति सः सर्वत्र वर्तते तस्मात् बहिः किमपि नास्ति तदानीं वयं प्रयत्नं कुर्मः तस्य समीपे गन्तुं वयं प्रयत्नं कुर्मः तर्हि अस्माकं यदस्तित्वम् अस्ति तादृशम् अस्तित्वं, अस्तित्वं तस्मिन् परमात्मनि वयं मेलनं कुर्मः तदानीं किं किं पातुं शक्नुमः इति चेत् परमात्मा एव वयं पातुं शक्नुमः यदा समु यदा समुद्रस्य अन्ते लवणस्य लवणस्य किं डॉल डाल् इति किं किं तत्र लवणस्य यद् आकारः अस्ति तद् वयं समुद्रे क्षिपामः तदानीं तत्र लवणस्य यद् डाल् अस्ति तस्य पृथक् अस्तित्वं न भवति शनैः शनैः शनैः तत्तु समुद्रे लीनं भवति एवं रीत्या यदा अस्माकं मनः परमात्मनि लीनम भवति तदानीं मनः न तिष्ठति मन मनसातीतः मानसातीतः इति अवस्थां वयं प्राप्नुमः पाञ्चालिका पाञ्चालिका हा धन्यवादः भगिनी विस्मृतं हा तत्र लवणस्य पाञ्चालिकां वयं समुद्रे क्षिपामः चेत् किं भवति इति चेत् शनैः शनैः शनैः तद् समुद्रे तस्य विलीनं भवति तदानीं पृथक् अस्तित्वं यथा नास्ति तथा अस्माकं मनः परमात्मनि विलीनं यदा भवति तदानीं पृथक् अस्तित्वं न भवति तदानीं पृथक्तया मनः अपि न भवति तर्हि तदानीं ब्रह्मचक्रात् बहिः धावनस्य आवश्यकता नास्ति धावनस्य दावन धावनस्य धावनार्थं प्रयत्नमपि नावश्यकं यतोहि तदानीं तु अवश्यं परमात्मा लभ्यते एव परमात्मनः कृपावृष्टिः अवश्यं वयं वृष्टिं पातुं शक्नुमः तदेव तत्र श्लोके अपि उक्तं सर्वसंस्थे बृहन्ते अस्मिन् भ्राम्यते ब्रह्मचक्रे पृथकात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वम् एति अयं श्लोकः बहु मुख्यः श्लोकः अस्ति तर्हि अहं जीवात्मा अस्मि सः प्रेरिता अस्मि तेन एव मया अत्र आगतः अस्ति यावत्पर्यन्तम् अहं इति भावः अस्ति तावत्पर्यन्तं पृथक् एव तिष्ठामि तर्हि पुनर्जन्म अवश्यं भवति यदा वयं चिन्तयामः यद् परमात्मा अपि च अहं पृथक् सत्ता तर्हि तत्र किं भवति इति चेत् अस्माकम् अहवा अहङ्कारस्य नाशः भवति तदानीं मानसातीतावस्थां वयं प्राप्नुमः अस्माकं जीवस्य परमात्मनि ऐक्यं भवति अयमेव योगः इत्यपि वयं वक्तुं शक्नुमः अस्मिन् जगति सर्वे मनुष्याः इच्छन्ति वा अनिच्छन्ति वा परमात्मा परमात्मनः समीपं वा गच्छन्ति अथवा दूरं वा गच्छन्ति इत्युक्ते सर्वे जीवाः परमात्मनं परमात्मानम् इच्छन्ति एव ते जानन्ति यद्यपि सः वक्तुं शक्नोति यद् परमात्मा वक्तुं शक्नोति सः नास्तिकः भवितुमर्हति कोऽपि पुरुषः तथापि सः न जानाति यद् तस्य मनसि परमात्मन परमात्मानं प्रति आकर्षणम् अस्ति इति सः न जानाति अतः ज्ञात्वा वा अज्ञात्वा वा सर्वे अस्मिन् ब्रह्मचक्रे भ्रमन्ति कदाचित् समीपं गच्छामः कदाचित् दूरम गच्छामः तर्हि यः कोऽपि पुरुषः भवतु यः कोऽपि मनुष्यः भवतु सा पापी वा भवतु पुण्यवान् वा भवतु सर्वे सर्वेषु मनस्सु परमात्मनः परमात्मानं प्रति प्रेमभावः तु वर्तते एव कदाचित् तादृशप्रेमभावः व्यक्तं व्यक्तः भवति कदाचित् प्रच्छन्नरूपेण भवति प्रेमभावः कदाचित् प्रेमभावः व्यक्तः न भवति तर्हि इति अत्र अयं श्लोकः मुख्यः अस्ति तत्र मनसि अयं श्लोकः मनसि भवति चेत् बहु लाभदायकं भवति सर्वाजीवेसंस्थे आमामाम् आम् प्रेषयामि प्रेषयामि सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे पृथक् प्रेरितारञ्च मत्वा तिष्ठस्ततस्तेन अमृतत्वम् एति अस्तु इति अत्र अद्य वक्तुम् इच्छामि तर्हि इदानीं साक्षात् अस्माकं पाठं प्रति गच्छामः हंसशब्दस्य इति अर्थं आ... जीवः जीवात्मा जीवात्मा हा किन्तु तस्य हंस इति यत् पक्षी अस्ति सः दुग्धं जलस्य इति भेदं जानाति तत् पृथक् करोति स केवलं दुग्धमेव स्वीकरोति इति अपि अस्ति इत्यपि वयं वक्तुं शक्नुमः इति वक्तुं शक्नुमः इत्युक्ते तत्र एक स्वामिनः उक्तवान् हंस इत्यस्य यदि वयं विपरीतं वदामः स अहम् अहं स सः स अहम् अस्मि इति इति सुन्दर सम्यक् सम्यक् सम्यक् सम्यक् बहु सम्यक् हा हा इत्येवं चिन्तयितुं सः अहम् इति पृथग्भावः हंसः इति पृथग्भावः नास्ति इति, इति, इति वा हंस एव सोहम् अस्ति सम्यक् सम्यक् अस्तु धन्यवादः भगिनि आ, हा तर्हि अत्र इत्युक्ते अस्माकं विषयः अस्ति अस्मिन् जगति मनुष्याः कथं जीवेयुः इति विषयः बहु मुख्यः विषयः अस्ति तर्हि वयं जानीमः सृष्टिचक्रे मनुष्याणाम् आविर्भावः दशवादने अभवत् अस्माकं तु चैतन्यस्य प्रतिबिम्बः स्पष्टतया वर्तते अस्माकं मनः बहु वर्धितं वर्तते तर्हि तत्र प्रकृति प्रकृतिः अपि अस्माकं साहाय्यं करोति प्रतिसञ्चर्धारायां सत्त्वगुणस्य प्राबल्यं वर्तते तर्हि अत्र दशवादनात् द्वादशवादनपर्यन्तं गमनम् आवश्यकं तदर्थं किमपेक्षितम् इति चेत् प्रकृतेः नियमानां पालनं प्रकृति सर्वदा दण्डं ददाति यत् उचितं कर्म वा कुर्मः अनुचितं कर्म वा कुर्मः सर्वदा दण्डं ददाति इत्युक्ते पुण्यरूपेण वा पापरूपेण वा यदा अहं कर्ता अहं भोक्ता इति रूपेण वयं कार्यं कुर्मः तदानीं तु प्रकृतिः अवश्यं दण्डं ददाति पुण्यरूपेण भवतु पापरूपेण वा, वा तर्हि पुनर्जन्म अवश्यं भवति तर्हि तत्र अग्रगतिः दशवादनात् द्वादश द्वादशवादनपर्यन्तम् अग्रगतिः कथं भवति इति चेत् तत्र बिन्दुद्वयम् आवश्यकमस्ति एकं तु प्रकृतेः नियमानां पालनं आवश्यकमस्ति द्वितीयं तु चैतन्यस्य प्रतिबिम्बस्य विस्तारार्थं तत्र साधनायाः अपेक्षा वर्तते इति विषयद्वयमस्ति तर्हि यदा प्रकृतिः प्रकृतेः नियमानां भङ्गः भवति इत्युक्ते अहं कर्ता अहं भोक्ता इति एवं रूपेण वयं कार्यं यदा कुर्मः तदानीं प्रकृतेः दण्डनस्य पात्रं वयं भवामः तदानीम् अत्र अग्रगतिः सूक्ष्मं प्रति गमनं स्थगितं भवति तदर्थम् अस्माभिः अत्र उत्तमकर्माणि एव कर्तव्यानि तादृश उत्तमकर्माणि विद्यामाया इति वयं वदामः तत्र विद्यामाया माया इत्युक्ते तत्र वैराग्यं विवेकः इति विषयद्वयम् अपेक्षितमस्ति वैराग्यम् इत्युक्ते विरागस्य भावः तत्र जगति यानि वस्तूनि सन्ति तेषां उचितो उपाय उचितोपयोगः कः इति अवगमनम् एव अत्र वैराग्यं जगति यानि वस्तूनि संति तैः वयं रञ्जिताः न भवामः तर्हि तत्र जगति वसामः परन्तु जगति यानि वस्तूनि सन्ति तेषां प्रति अस्माकम् आकर्षणम् इच्छा आकाङ्क्षा न भवेत् इति अस्ति वैराग्यम् अपि च तत् सम्बद्धविषयः अस्ति विवेकः विवेकः इत्युक्ते तत्र विभजनं किम् उचितं किम् अनुचितम् इति विभजनम् एव तत्र विवेकः वस्तु नित्यानित्यवस्तु विवेकः नित्यवस्तु किम् अस्ति अनित्यवस्तु किम् अस्ति किम् उचितं किम् अनुचितम् इति ज्ञानम् एव विवेकः तर्हि विवेकः वैराग्यं द्वयमपि तत्र उत्तमकर्माणि उत्तमकर्माणि कुर्मः अनन्तरं साधनमपि कुर्मः चेत् तदानीं क्रमेण विकासः भवति तदानीं झटिति सूक्ष्मं प्रति गमनं सुलभं भवति तद्विरुद्धं तत्र अविद्या माया इति यद्वयं वदामः दुष्टकर्माणि अवि अविरुद्ध विरुद्धकर्माणि एतादृशकर्माणि किम् एतादृशकर्माणि कुर्मः चेत् किं भवति इति चेत् चैतन्यस्य प्रतिबिम्बः मन्द प्रतिबिम्बः मन्दः भवति अपि च प्रकृतेः नियमानं विरुद्धे वयं गच्छामः तर्हि तत्र एवम् एवं, एवं कुर्महाचे तत्र मनसः वर्धनं न भवति मनः अधो मनो मनः अधोगतिं प्राप्नोति मनः पतति तदानीं चैतन्यस्य प्रतिबिम्बः अपि स्पष्ट तत्र प्रतिबिम्बे अपि स्पष्टता न भवति तत्र विकासः न भवति वर्धनं न भवति तर्हि एतादृशदुष्टकर्माणि कानि इत्यपि अस्माभिः दृष्टानि तर्हि अत्र षड्रिपवः अष्टपाशाः एव अविद्या माया दुष्टकर्माणि षड्रिपवः इत्युक्ते कामक्रोधलोभ मोह मदमात्सर्यं षड्रिपवः अष्टपाशाः मोहः मदः मात्सर्यं न वयं लज्जा गृणा शङ्का कुल शील मानं जुगुप्सा इति अष्टपाशाः सडृपवः अष्टपाशाः एते सर्वे अस्माकं वैरिणः सन्ति तर्हि एते सन्ति चेत् तदानीम् अस्माकं वर्धनं मनसः वर्धनं न भवति मनः शुद्धं न भवति चैतन्यस्य स्पष्ट स्पष्टतया प्रतिबिम्बार्थं तदानीम् अधोगतिः न भवति मनः स्थूलं भवति अस्मिन् स्थूलजगति एव अस्माकं विचारः मनः लग्नं भवति तर्हि सूक्ष्मं प्रति गमनं सहितं भवति तर्हि विद्यामायाः अनुसरणम् उत्तमकर्म अविद्यामायाः अनुसरणं दुष्टकर्म विद्यामायाः अनुसरणेन सूक्ष्मं प्रति अविद्यामायाः अनुसरणेन स्थूलं प्रति गमनम् तर्हि अस्माकं तु स्वतंत्र इच्छा वर्तते स्थूलं प्रति गमनम् आवश्यकं वा सूक्ष्मं प्रति आवश्यकं वा इति तदर्थम् अस्माकं स्वतन्त्र इच्छा वर्तते अस्माकं हस्ते वर्तते वयं कस्य अनुसरणं कर्तुं शक्नुमः इति तर्हि अत्र तत्र गतवर्गे तत्र बुद्धिः अनन्तरं मनः अनयोः सम्बन्धस्य विषये प्रश्नः आसीत् तर्हि तत्र किं वक्तुं शक्नुमः इति चेत् यदा अहं तत्त्वस्य अहं तत्त्वं चित्तात् चित्तात् तत्र वर्धनं भवति चेत् तदानीं बुद्धेः विकासः भवति अहं तत्त्व इस् ग्रेटर देन् द चित्ता देन् बुद्धिवाल्स् यदा महत्तत्त्वं अहं तत्त्वात् बृहत् अस्ति तदानीं तत्र बोधिज्ञानं भवति इण्ट्यूषन् अतः बुद्धिः अपि मनसः अंशः परन्तु तथापि पृथक् अस्ति बुद्धिः इति पृथक् अस्ति मनसः अंशः परन्तु पृथक् अस्ति तयो तयोः गाढः सम्बन्धः वर्तते पृथक् पृथक् अस्ति परन्तु गाढः सम्बन्धः वर्तते द्वयोः मेलनरूपेण कार्यं भवति मिलित्वा एव कार्यं भवति इति अत्र किञ्चित् वक्तुम् इष्टवती तर्हि इदानीं ततः अग्रे भगिनी प्रकृतेः नियमपालन इति अभिप्रायः किम् अस्ति हा प्रकृतेः नियमपालनम् इत्यस्य अभिप्रायः कः इति चेत् इत्युक्ते तत्र दशवादने मनुष्याणाम् आविर्भावः यदा भवति तदानीं तत्र प्रकृतेः प्रभावः किञ्चित् न्यूनः जातः अस्ति प्रकृतिः अस्माकं सहायं करोति तर्हि तत्र द तत्र सत्त्वगुणस्य प्र, वर्तते तर्हि ततः दशवादनात् द्वादशवादनपर्यन्तम् अस्माकं गमनम् अपेक्षितं तदर्थं यादृशकर्माणि वयं कुर्मः ते तैः वयं पुण्यं वा पापं वा प्राप्नुमः वा न वा इति अत्र प्रश्नः अस्ति प्रकृतेः नियमस्य पालनं यदा वयं कुर्मः उचितकर्माणि कुर्मः तदानीम् अग्रगतिः प्रकृतिः अपि साहाय्यं करोति अग्रगतिः भवति उचितकर्माणि इत्युक्ते इदानीम् एत यथात्र श्लोके उक्तं यावत्पर्यन्तं पृथक् अस्तित्वम् अस्ति अहं भिन्नः अस्मि परमात्मा भिन्नः अस्ति इति अहमेव कर्ता अहमेव भोक्ता इति आधारेण यदा व्यवहारं कुर्मः तावत्पर्यन्तं पुण्यं वा पापं वा वयं प्राप्नुमः इत्युक्ते योगनिष्ठजीवन आधारेण यदा वयम् अग्रे गच्छामः इत्युक्ते अस्माकं व्यवहारः यमनि यमनियमानां पालनमस्ति व्यवहारे भोजनम् उचितम् अस्ति यत्किमपि कर्म वयं कुर्मः तद् अहमेव कर्ता भोक्ता इति आधारेण नास्ति परन्तु परमात्मनः यन्त्रः अस्मि इति यन्त्रम् अस्मि इति आधारेण वयं कर्म कुर्मः चेत् तदानीं पापं वा पुण्यं वा न प्राप्नुमः तदानीं प्रकृतेः नियमानां पालनं भवति यतोहि प्रकृतिः अपि इच्छति यद् वयम् अग्रे अग्रे गच्छामः इति सा अपि इच्छति तदर्थं साहाय्यं कर्तुं सा सिद्धा अस्ति तदर्थमेव विद्या माया अस्ति अस्माकं साहाय्यं कर्तुं सा सिद्धा अस्ति परन्तु प्रकृतेः नियमानं विरुद्धे वयं गच्छामः इत्युक्ते यदा मांसभक्षणं कुर्मः मांसभक्षणं कुर्मः तदानीं किं भवति इति चेत् मनः स्थूलं भवति मनसः अधोगतिः भवति यतोहि मांसः तु सामसिकपदार्थः अस्ति तस्य सेवनेन अस्माकं मनसि तमोगुणाः आगच्छन्ति तमोगुणेन अस्माकं मनः मनसः पतनं भवति तर्हि मनसः पतनम् इदानीं मनः स्थूलं जातं तर्हि तदपि प्रकृतेः विरोधः तर्हि प्रकृतेः विरोधः कथम् इति चेत् इदानीं मनः स्थूलं जातं तर्हि अत्र अस्माकं शरीरमस्ति मनुष्यशरीरं परन्तु इदानीं मनसः पतनं जातं तर्हि इदानीं तादृशमनः अस्मिन् शरीरे स्थातुं न शक्नोति अतः यदा मरणं जायते तर्हि पुनः इदानीं मनः मनसः अधोगतिः जाता इति कृत्वा पुनः मनुष्यशरीरं न लभ्यते यतोहि प्रकृतेः नियमानां भङ्गः जातः अस्ति अतः अधोगतिः भवति तर्हि पुनः षड्वादनात् आर अस्माभिः आरम्भणीयः षड्वादनात् आरम्भणीयम् किमर्थं चेत् मनः तु इदानीं मनः तु पशुशरीरं पा प्राप्तुं योग्यः योग्य योग्यः योग्यम् अस्ति इत्युक्ते म मनसः अपि च शरीरस्य तत्र तौल्यं भवेत् इत्युक्ते द मैण्ड् शुड् बि अप्रोपरेट् फार् गेटिङ्ग् अप्रोपरेट् बाडि यथा तत्र तत्र सङ्गणकमस्ति सङ्गणके यद् चिप् वयं स्थापयामः सङ्गणस्य अनुगुणं वयं स्थापयामः इत्युक्ते सङ्गणकं बहु चेत् तत्र चिप् वर्धितं स्यात् यदि सङ्गणकं वर्धितं नास्ति तदानीं चिप् अपि वर्धितं न भवति यथा तत्ता अत्र मनः बहु वर्धितं चेत् तदनुगुणं शरीरं लभ्यते यदि मनः न वर्धितम् अवर्धितम् अस्ति मनः तदानीं तदनुगुणं शरीरं लभ्यते अतः अस्माकं व्यवहारः प्रकृतेः विरुद्धे अस्ति चेत् तदानीं मनसः विकासः न भवति स्थूलं भवति स्थूलं भवति चेत् अधोगतिः भवति अधोगतिः भवति चेत् अत्र चक्रे अत्र सिष्टिचक्रे अधोगतिः भवति तदनुगुणं मनः लभ्यते पुनः सङ्घर्षं कुर्मः सङ्घर्षं कृत्वा कृत्वा पुनः अग्रगतिः भवति इत्येवं रीत्या अत्र विषयः अस्ति अतः प्रकृतेः नियमानां भङ्गः इति चेत् अस्माकम् अग्रगतिः न भवति इत्युक्ते अस्माकं व्यवहारः तथा अस्ति येन वयं पापं पुण्यं वयं सम्पादयामः यदा पापं पुण्यं सम्पादयामः तदानीं तत्रतु तु अग्रगतिः न भवति अधोगतिः एव भवति अवग अवगतं वा भवति hmm. अस्तु भगिनी okay. uh, पठति वा किं uh, सुचित्रबद्नि पठति वा अस्ति वा भगिनि ओ तर्हि ओ भगिनी गतवती सरलभक्नि पठतु uh, विद्यामायाः अनुसरणम् भगिनी अग्रिम अग्रिमपरिषेतम् गतसप्ताहे कृतवती ये विद्यामायाः अनुसरणं कुर्वन्ति तेषां चतुर्षु वर्गेषु विभागः शक्यते प्रथमं ये प्रकृतिनियमानाम् अनुसरणं कुर्वन्ति अपि च जीवात्मनः प्रग प्रगतेः कृते प्र प्रयासं कुर्वन्ति ते सज्जनाः सन्ति तृतीय ये प्रकृतिसरण कुरंतु जीवात्म प्रगते, प्रगते प्रयत्ना कर्त उदासीना सी तृतीय ये प्रकृतिस न क्वती अभी चीवात्मन प्रगते प्रयत्ना प्रयत्ना कर्त उदासीना सी एग्नाचं चतुर्थ ये चतुर्थ ये प्रकृति न कव जीवात्म अवंती हेतु अभी तथा अधमतमा अधमतरा इधवती उतवती निमा तो चत चर भेद सी ये विद्याम विद्याम की वय इध जानीमः यत् मनुष्य यदि योनि प्राप् प्राप्न प्राप्नोति यथा दशवादने ब्रह्मचक्रे तस्मात् मनुष्यस्य इति प्रकृतिः भवेत् द्वा द्वादशपर्यन्तम् इत्युक्ते परमात्म न विलीन भवतु इति कृते यत् मनुष्य पुरुषारथं करोति तत् वयं विद्यामाया इति विद्यामाया यत् अस्ति तस्य चत्वारः भाग सन्ति यदि प्रकृतिनियमान् अनुसारं मनुष्य मनुष्यस्य जीवात्मन परमात्मनः विलीनं भवेत् इति ऐक्यं भवेत् इति अनुसरणं स प्रगतिः करोति प्रयासं करोति यथा वयं जानीमः शारीरिकस्तरे सर्वे आहारव्यायाम इति साधना मनु मानसिकस्तरे साधनां करोति अपि आध्यात्मिकस्तरे सदैव परमात्म तस्य स्मरणमस्ति कल्याण लोककल्याणमपि करोति यदि ते पालनं करोति तत्र प्रयासं करोति कर, चेत् ते लोकाः वयं सज्जनाः इति वदामः द्वितीयस्तरमपि प्र तस्य प्रयत्नम् अस्ति किन्तु आ, कदाचित् प्रयत्नस्य न करोति कदाचित् करोति इति उदासीनः भवति प्रयत्न प्रयत्नात् इति तत् वयं द्वितीयस्तर वयम् उदासीनः वदामः प्रथमं सज्जना सज्जनं द्वितीयमस्ति उदासीन तृतीयमस्ति प्रकृतिनियमानुसरणं न कुर्वन्ति अपि च जीवात्मनः कृते प्रयत्नान् कर्तुम् उदासीनाः सन्ति अहं चिन्तयामि इत्यस्य अर्थं भवति तस्य मनसि अस्ति यथा भवती उक्तवती सर्वे परमात्मा ईष्णा ऐष्णाश्ना अस्ति एष्णा अस्ति किन्तु कोपि प्रयासं इति न करोति एष न अस्ति जानाति किं कर् कर्तुं किन्तु प्रयासं नास्ति प्रयासं प्रयासं प्रति उदासीनम् अस्ति तत् भवति निम्नाः इति तृतीय मनुष्यः चतुर्थाः भवन्ति ते किमपि प्र प्रकृति अनुसार नियमानुसारं न कुर्वन्ति ते यत् कर्म करोति तत् ता, तस्य ता, मनुष्य धर्मपालनं न करोति इति पशुधर्म एव, एव चलति तस्य तस्य अधोगतिः भवति अधम योनि योनि प्रति वच्छति तु अधम अध अधमतात् अधमतर इति गच्छति ता, इत्युक्ते दशवादनतः षड्वादनं पर्य पाया, पर्यन्तं तस्य गतिः भवति इति तृतीय अधमतरा इति वयं वदामः अवन् अवन्ति हेतु अवन्ति हेतु अवन इत्युक्ते किं अवनतिहेतुः मीन्स् अधोगमनम् अधोगमनम् अस्तु वर्धनं न भवति मनसः पतनम् अस्तु अवनतिः पतनम् पतनस्य हेतुः अस्तु प्रथममस्ति अत्र उत्थानमस्ति चतुर्थं अन्तिममस्ति अस्य पतनम् अस्ति मध्ये इति उत्थानं प्रति प्रयासः अस्ति द्वितीय यत् द्वितीयमस्ति किञ्चित् जागृतं भवति किन्तु प्रयासं नास्ति तत्र तृतीयागच्छति सम्यक् इत्युक्ते ये विद्यामायाः अनुसरणं कुर्वन्ति तेषां चतुर्षु विभागेषु तत्र विभजनं चतुर्षु विभागेषु विभजनमस्ति तर्हि प्रथमतया ये जनाः प्रकृतेः नियम नियमानां नियमा पालनं कुर्वन्ति अपि च साधनमपि कुर्वन्ति साधनमपि कुर्वन्ति तत्र चैतन्यस्य प्रतिबिम्बस्य विकासार्थं साधनां कुर्वन्ति ते एव उत्तमजनाः ते उत्तमजनाः ते एव मानवधर्मस्य पालनं कुर्वन्ति तत्र सृष्टेः यदि लक्ष्यमस्ति तस्य अनुसारं ते अग्रगतिं प्राप्नुवन्ति ते उत्तमजनाः इत्युक्ते ते उत्तमजनाः इत्युक्ते ते योगनिष्ठजीवनस्य व्यवहारं कुर्वन्ति ते उचिताहारं व्यायामः साधना आसन आसनानि एतत् अन्यस्य सहायं सेवा एतत् ते कुर्वन्ति इति कृत्वा तेषां वर्धनं ते परमात्मनः समीपं गच्छन्ति ते उत्तमजनाः सन्ति ते एव वस्तुतः मनुष्यजनाः बहिः अपि मनुष्याः अन्तः अपि मनुष्याः ये जनाः द्वितीयतृतीयस्तरे सन्ति ते जनाः मनुष्यरूपेण पशवः सन्ति ते मनुष्यरूपेण पशवः सन्ति यतोहि तेषां व्यवहारः तथा अस्ति द्वितीयस्तरे ये जनाः सन्ति ते प्रकृतेः नियमानां पालनं कुर्वन्ति परन्तु अग्रगतिम प्राप्तुं ते परमात्मनः चिन्तनं न कुर्वन्ति साधनां न कुर्वन्ति तेषु तेषु भक्तिभावः नास्ति तृतीयस्तरे तृतीयस्तरे जनाः तु अधमाः ते प्रकृतेः नियमानामपि पालनं न कुर्वन्ति अपि च चैतन्यस्य प्रतिबिम्बस्य वर्धनार्थं प्रयासः अपि न प्रयासमपि न कुर्वन्ति चत् चतुर्थस्तरे ये जनाः सन्ति ते तु द्वयमपि न कुर्वन्ति इति कृत्वा ते अधमा अधमः अन्ततो गत्वा द्वितीयस्तरे तृतीयस्तरे चतुर्थस्तरे ये जनाः सन्ति ते तु मनुष्यरूपी पशवः सन्ति इति एव इत्युक्ते मनुष्यरूपी पशवः सन्ति इति कृत्वा तैः सह वयं वयं व्यवहारं न कुर्मः इति न तथा नास्ति तेषां वर्धनार्थमपि वयं प्रयासं कुर्मः तेषां वर्धनार्थं प्रयासं कुर्मः सेवां कुर्मः परन्तु केवलं तावत्पर्यन्तमेव व्यवहारः भवति इत्युक्ते प्रतिदिनं तैः सह अस्माकं व्यवहारः तादृशं न भवति केवलं तेषां वर्धनार्थं वयं प्रयासं कुर्मः तावदेव इति तत्र अस्ति अस्तु तर्हि किञ्चित् अग्रे गच्छामः भगिनी नास्ति भगिनी भवति अग्रे पठतुभ्रमण मनुष्यनिर्मा निर्माणे उद्देश्यमस्ति यत् मनुष्यैः सूक्ष्मं प्रति स्वमार्गः अनुसर्तव्यः येन पुनः परमपदं प्रत्यागच्छन्ति अयमेव मनुष्याणां स्वभावः भवति परमपदम् प्राप्तुम् प्रयत्नः आवश्यकः जीवात्म उन्नयनाथ कर्मी अभी प्रकृति भवुत प्रकृति प्रगतिविज्ञा न सृजती अतः प्रथम वर्ग से जान अर्थात सज्जना स्वभाव प्राकृत मनुष्य स्वभानुसार कार्य क्या यद सगुण ब्रह्मणा मनुष्या तदर्थं ते सज्जनाः एव पूरयन्ति अस्तु अस्मिन् परिच्छेदे सज्जनाः ये प्रथमस्तरे वयं दृष्टवन्तः प्रथमप्रभेद यत् आसीत् तस्य विवरणमस्ति सगुणभ्रमण तु सर्वे सर्वेषाम् उन्नतिः एव इच्छति सर्वेषाम् प्रगतिः इति तस्मै विलीनं भवे सर्वे मनुष्याः इति तस्य इच्छा अपि अस्ति तस्य उद्देशः इति अस्ति मनुष्यः अपि सूक्ष्ममार्गं प्रति अनुसरे इति अस्ति परमपदं प्राप्तुं तेषां प्रयासः भवेत् इति सगुणब्रह्मण इच्छा अस्ति अपि तस्य अनुग्रहः अपि भवति यदि मनुष्यप्रयासः करोति तस्य अनुग्रहः अपि अ Uh, uh, अधिकं प्रयासः अधिकम् अनुग्रह भवति इति uh, uh, तस्य प्रोपोषनेट् भवति इति अहं uh, um, श्रुतवती इति अस्ति uh, अयमेव मनुष्य मनुष्याणां स्वभाव धर्म तु वयं जानीमः मनुष्याणां भावती जीवपरमात्मा ऐक्यं तु इति अस्माकं धर्मः अस्ति इति तस्मै प्रति प्रगतिः भवेत् इत्यस्य कृते प्रथमं मनसशुद्धिः भवेत् मनसः यदि शुद्धं भवति तस्य मनुष्य मनसः प्रतिबिम्ब यस् भवति तर्हि तत् यदि शुद्धं भवति तदानीमेव मनस शुद्धं भवति तदानीमेव परमात्मनः प्रतिबिम्ब क्लियर् भवति इति आगच्छति किन्तु यत्तत् प्राप्तुं जीवात्मनः प्रयत्नं करोति तत् प्रकृति अनुसारं करे यथा करिष्ये इति वयं जानीमः आहारसाधना योगनिष्ठजीवनस्य पालनं कर्तव्यम् अपि साधना, साधना स्वाध्याय अपि बहु प्रधानं भवेत् सदाई आ, परमात्मनः चिन्तनं मनसि भवेत् कोऽपि कार्यं यदि कुर्मः तदपि ईश्वर अर्पणं भवेत् भक्तिभावः अपि मनसि स्थापया स्थाप्य कर्म कुर्मः इति अस्ति अनेन प्रगतिः भवति ईश्वरं प्रति इति अस्ति इति आम आमाम् आमामा समीचीनं भगिनी इत्युक्ते इत्युक्ते तत्र मनुष्याणाम् आविर्भावः भावः दशवादने अभवत् तर्हि सक्िचक्रस्य लक्ष्यं किम् इति चेत् क्रमेण तत्र सर्वे जीवानां सर्वेषां जीवानाम् अग्रगतिः भवेत् दशवादने मनुष्याणाम् आविर्भावः तर्हि मनुष्याः अन्ततो गत्वा परमात्मनि द्वाद, द्वादशवादने विलीनं भवतु इति एव लक्ष्यमस्ति सृष्टि सृष्टेः लक्ष्यं तर्हि तत्पर्यन्तं प्राप्तुं मनुष्य अस्तित्वम् आवश्यकमस्ति मनुष्य अस्तित्वं विना अग्रगतिः न भवितुमर्हति अन्ये जीवाः ये सन्ति ते तेषां यदा विकासः भवति तर्हि क्रमेण ते अन्ततो गत्वा मनुष्यजीवं प्राप्नुवन्ति ते अपि आदौ तेषां व्यवहारः तु पशुव्यवहारः भवति यदा तेषाम् अन्तश्चक्षुः उद्घाटितं भवति तदानीं तत्र सद्गुरु सद्गुरुप्राप्तिः भवति तर्हि साधनामार्गे ते अग्रगतिम प्राप्नुवन्ति तेषां विकासः भवति अन्ततो गत्वा परमात्मनि तत्र ऐक्यमपि तेषां भवति तर्हि एतदेव अस्ति तत्र लक्ष्यं यस्य यद् यदर्थं सगुणब्रह्मणा जगतः निर्माणं कृतं मनुष्याणां निर्माणं कृतं तर्हि एतत्तु गतिः अस्ति दशवादनद्वादशवादवादनपर्यन्तम् अन्ये जीवाः तु स्वस्य स्वस्य सहजातवृत्ति वृत्तेः अनुसारं ते कार्यं कुर्वन्ति प्रकृतेः नियमानुसारं ते कार्यं कार्यं कुर्वन्ति केवलं मनुष्याः एव तादृश प्राणी अस्ति यः तु प्रकृतेः नियमानां भङ्गं कुर्वन्ति तर्हि तदर्थं तत्र अस्माकं तु न केवलं वर्धितं मनः अस्ति अपि अस्माकं स्वतन्त्र इच्छा वर्तते अतः अस्माकं हस्ते अस्ति पशुधर्मस्य पालनं वा मानवधर्मस्य पालनं वा इति अस्माकं हस्ते इच्छा स्वतन्त्र इच्छा वर्तते तर्हि वयं चयनं कर्तुं शक्नुमः किं मम कृते किम् अहं किमिच्छामि इति अहं चयनं कर्तुं शक्नोमि तर्हि तत्र अनन्तेषणा वर्तते मानवधर्मस्य पालनं करोमि इति चेत् तदानीं तत्र प्रकृतिनियमानां पालनं भवति साधना भवति अग्रगतिः भवति परन्तु अन्ये जनाः ये पशुव्यवहारमेव कुर्वन्ति तर्हि तेषां तु अधोगतिः अवश्यमेव ति यतोहि ते तु स्वतन्त्र इच्छायाः पालनं न कुर्वन्ति यदर्थं तत्र स्वतन्त्र इच्छा दत्ता अस्ति तस्य पालनं ते न कुर्वन्ति यदर्थं मनुष्यजीवनम् अस्माभिः प्राप्तं तस्य पालनं वयं न कुर्मः अनुचितकर्माणि कुर्मः विरुद्धकर्माणि कुर्मः अतः षड्रिपवः अष्टपाशाः एतान् वयं सम्पादयामः तर्हि तत्र अधोगतिः एव मनः मनः वि विकासितं न भवति वर्धितं न भवति मनसः पतनं भवति तर्हि सृष्टेः लक्ष्यं पूरितं न भवति अतः अस्मिन् भ्रमचक्रे वयं भ्रमन्तः वयं स्मः भ्रमन्तः स्मः अग्रगतिः न भवति पुनर्जन्म पुनर्मम् इति एवं रीत्या वयं तत्र उचितमार्गे वयं न अनुचितमार्गे वयं स्मः चेत् तत्र अधोगतिः एव भवति तत्र इतोपि एकं परिचयं स्वीकुर्मः भगिनि कृपया पशव पशवः अपि प्रकृतिम् अनुसरन्ति परन्तु चैतन्यस्य स्पष्टप्रतिबिम्बस्य अभावात् ते स्वचैतन्यस्य उन्नत्यै कमपि प्रयासं कर्तुं न शक्नुवन्ति द्वितीयवर्गस्य जनाः ये केवलं प्रकृतिनियमान् अनुसरन्ति ते पशुभ्यः कथञ्चित् अपि भिन्ना न भवन्ति ते स्वेषु पूर्णतया प्रतिबिम्बतस्य अनुचैतन्यस्य उपयोगं न कुर्वन्ति अतः तेषां विषये अन्यत् किमपि न वक्तुं शक्नुमः यतः ते मनुष्यवेषे पशव सन्ति इदानीं यत् द्वितीयस्तरं मनुष्यस्य अस्ति तत् वयं पूर्वं पठि पठितवन्तः ये मनुष्यो योनि प्राप् प्राप्नुवन्ति किन्तु तेषां मनसि पशुधर्म एव प्रचलति तत् एव प्रधानम् अस्ति मनुष्यधर्मस्य ते तेषां कोऽपि ज्ञानं नास्ति न ज्ञानम् अस्ति प्रयत्नं करोति ज्ञातुम् अपि प्रयत्नं न करो सो ते कोमपि प्रयासं न कुर्वन्ति सो ते मनुष्यरूपे पशव एव सन्ति अतः ते तामसिक आहारं मासं खादन्ति इति वा के हीना कर्माणि हीनकर्माणि कर् कुर्वन्ति यथा ये मनुष्यस्य कृते इति स्वस्य कृते केवलं चिन्तयन्ति सर्वं कर्माणि स्वस्य कृते एव कुर्वन्ति तेषां काम कामक्रोधलोभ ये अष्ट अष्ट पाषा अष्टरिपवपाषा ये सन्ति तेषां ते, ते बद्धाः सन्ति तो अतः ते वयम् वदामः एनिमल् मेन् इति अस्ति सः इति तेषाम् अतो इत इत मनुष्य रूपं प्राप्तवन्तः ते मनः मनः अस्ति प्रतिबिम्बं यदि तस्य तेषां शुद्धं भवति तु प्रतिबिम्बस्य स्पष्टम् स्पष्टं भवेत् परमात्मन प्रतिबिम्बं किन्तु तत् मलिनम् अस्ति मन मनः मलिनं भवति इति रिपव पाषान् पाषान् सहि तदा ते पशव एव जीवन्ति इत्युक्ते द्वितीयस्तरीयजनाः ये सन्ति केवलं प्रकृतिनियमानां पालनमेव किञ्चित् कुर्वन्ति तर्हि ते उत्तमजनाः न सन्ति ते तु यत् पशवः अपि प्रकृतेः नियमानां पालनं कुर्वन्ति परन्तु तदाधिकं किमपि पशवः कर्तुं न शक्नुवन्ति यतोहि तेषां मनः विकसितं नास्ति इति कृत्वा सहजातवृत्तेः अनुसारं ते अग्रे गच्छन्ति परन्तु तत्र ते साधनां न शक्नुवन्ति अग्रगतिं प्राप्तुं ते शक्नुवन्ति पशवः तर्हि ये मनुष्याः केवलं प्रकृतेः नियमानां पालनं कुर्वन्ति परन्तु तदाधिकं किमपि न कुर्वन्ति तर्हि ते पशुभ्यः भिन्नाः न स्म भिन्नाः न सन्ति यथा हिन्दीभाषां वयं आ, भाए भाए <laughs> हा कावपि मौश् करो इति चेत् तत्र पशवः एव सम्भवत् यतोहि तत्र चैतन्यस्य सम्पूर्णतया प्रतिबिम्बार्थं तत्र मनसः शुद्धीकरणार्थं किमपि प्रयासं न कुर्मः चेत् अग्रगतिः न भवति तर्हि मनसः पतनं भवति मनसः पतनं भवति चेत् तर्हि पुनर्जन्म तु अवश्यमस्ति अग्रिमजन्मनि तु मनुष्यशरीरं न लभ्यते इति अस्ति अयं विषयः तु अस्माकं इदानीं परिचितः अस्ति यथा वा पूर्वं दृष्टवन्तः पशव यथा तेषां भवती भक्षणं रक्षार्थम् इति मैथुरं तृतीय चेत् ते मनुषा अपि एव कुर्वन्ति केवलम् आमामाम् आं किमस्ति तत्र आहारनिद्राभयं मैथुरं आम् आहारनिद्राभयं तृतीये चतुर्थे च वर्गे ये सन्ति ते वस्तुतः पशुभ्यः अधमा सन्ति पशवः तु प्रकृतिनियमान् अनुसृत्य जीवात्मना उन्नयनाथ कमी प्रयास न क्वती यु चैतन्य स्पष्टया न प्रतिबिंबित सर्वेशा, कर्म पूर्णतया प्रकृति सत पश काला स्पष्टया विकस प्रतिबिंबत अणुचैतन्यं प्राप्व तृतीय चतुवर्गो तो निम्नतमाम्तरा जना प्रतिबिंब चैतन्य उपयोग न क्वेश्चन तथा च प्रकृति नियमा नाम ते कार्य कहते निमत न कव प्रकृति विरुद्ध कार्यम कुर अवकर्माण मध्यमें अणुचैतन्य प्रतिबिंबे अतिशय अनय एतौ न केवलं मानवरूपेण पशु अपि तु पशुभ्य अपि नीचौ स्तः इदानीं वयं पूर्वं दृष्टवन्तः सज्जनाः कथं तेषां प्रगतिः भवेत् सगुणभ्रमणात् अपि तान् सहायं करोति प्रगति प्राप्तुम् ऐक्यं प्राप्तुम् अपि वयं चतुर्थ यत् भेद आसीत् पशव इव अधमतर अधमतरा ये सन्ति पशव जीव पशुजीवनम् एव पालनम करोति पशुजीवनम् एव तस्य जीवनं पा पालनं करोति किन्तु ये द्वितीय तृतीयस्तरे सन्ति यथा वयम् उक्तवन्तः निम्नाः अपि अधमतरा ते अपि पशु जीवनम एव पालनं करोति मनुष्यजीवनस्य धर्म ते न पालयन्ति तेषा तान् अपि वयं पशु पशुव्याधमा एव मन्या मन्यामः मन्यामहे मन्या इति कथम् इति भवति तेषां किमपि प्रयासं न अस्ति चैतन्यस्य कथं चैतन्यस्य चैतन्यं विकसित भवे मम इति इति किम् अपि प्रयासं नास्ति पशव अस्ति तेषां यत् सङ्घर्षः भवति तेन सङ्घर्षेण शनैः शनैः अणुचैतन्यं प्रतिबिम्ब विकसितं भवति मनुष्यजीवनं दशवादने यदि गच्छति तत्र प्राप् इदानीं मनुष्यजीवनं प्राप्य अपि पशु तरः एव जीवन्ति पू पशुः इव जीवन्ति अपि कोऽपि अन्यप्रयासं न कुर्वन्ति तो तत्र यत् अणुचैतनस्य प्रतिबिम्बं यत् अस्ति तत् मलिनं भवति पुनः पुनः ते ये अधो प्रकृति पालन करो कुर अभी कवलम सीवने प्रति कर्मानी कर्मा तो मन अधिकम अधिकम मलीनम मलिम होती चक्रे अधोगति प्रति गच्छन्ति इति एव अस्ति अत्र आमामां भगिनी तर्हि अत्र द्वितीयस्तरे ये जनाः सन्ति ते प्रकृतीनां प्रकृतेः नियमस्य पालनं कुर्वन्ति परन्तु तत्र तेषां चैतन्यस्य प्रतिबिम्बस्य विकासार्थं ते प्रयासं न कुर्वन्ति तर्हि ते तु वस्तुतः पशुभ्यः अपि अधमः एव ते सन्ति अधमाः सन्ति यत् किमर्थम् इति चेत् पशु पशवः तु प्रकृतेः नियमानां पालनं ते कुर्वन्ति परन्तु ततः अधिकं कर्तुं तेषां सामर्थ्यं नास्ति परन्तु मनुष्ये तथा मनुष्येषु तथा नास्ति मनुष्येषु ततः अधिकं सामर्थ्यम् अस्ति परन्तु न कुर्मः इति कृत्वा वयं मनुष्येभ्यः अपि अधमाः वयं स्मः हा तर्हि ये जनाः तृतीयस्तरे चतुर्थस्तरे सन्ति ते तदपि न कुर्वन्ति तत्र तृतीयस्तरे तु तत्र प्रकृतेः नियमानामपि पालनं न कुर्वन्ति चतुर्थस्तरे तु द्वयमपि न कुर्वन्ति खलु अतः तृतीयस्तरे चतुर्थस्तरे जनाः सन्ति ते तु अधमाधमः अधमाधमाः सन्ति ते किमपि न कुर्वन्ति तेषु सामर्थ्यम् अस्ति परन्तु ते किमपि न कुर्वन्ति अतः तेषां तु अधोगतिः अवश्यम् अस्ति मनु पशुषु सामर्थ्यं नास्ति ते न ना कुर्वन्ति परन्तु मनुष्येषु सामर्थ्यमस्ति परन्तु तथापि वयम् अधिकं कर्तुं समर्थाः स्मः परन्तु तथापि न कुर्मः अतः वयं पशुभ्यः पशु किं पशुसमः न स्मः वयं mm -hmm. पशुभ्यः अपि अधमः वयं स्मः सो इत्युक्ते तत्र द्वितीयस्तरे इत इत्युक्ते कश्चन द्वितीयस्तरे इत कश्चन पुरुषः अस्ति यः शाकाहारी अस्ति सः शाकाहारी शाकाहारी भोजनं स्वीकरोति तर्हि सम्यक्तया निद्रां करोति रात्रौ Uh, एतत् सर्वं करोति सामान्यव्यवहारं करोति तत्तु पशु अपि करोति खलु तादृशव्यवहारः तु पशु अपि करोति परन्तु ततः अधिकं किमपि न सः पुरुषः न करोति तर्हि सः तु पशुभ्यः अधमः अस्ति mm -hmm. तर्हि uh, तृतीयस्तरे चतुर्थस्तरे ततोपि अधमो अधमः सन्ति mm -hmm. uh, इति so, एनिमल् गार्ड् इस् अनूज़ेल् ट्वेल् ओ क्लाक् इतिमल् गाड् गार्ड् मेन्तु प्रज्ञा जीवन्मुक्तपुरुषं भवति यः मेन् मेन् अस्ति यत् प्रयासं करोति यथा चतुर्थसज्जना धीरा ते जानन्ति किम् अस्ति प्रयासमपि कुर्वन्ति अपि एनिमल् मेन् यथा वयं द्वितीय तृतीयस्तरे वा इति वक्तुं शक्नुमः हा हा एनिमल् एनिमल् मेन् एण्ड् मेन् मेन् एण्ड् देन् गाड् मेन् म्यान् मेन् इति इत्युक्ते किं किं वक्तुमिच्छति मेन् मेन् इति अत्र जानाति इण्टेलेक्चुवलि वि नो वाट् टु डू बट् व्यवहारे आचरणं न कुर्मः इति तर्हि तत् म्यान् मेन् कथं भवति स्वतन्त्र इच्छायाः प्रयोगः नास्ति चेत् मेन् मेन् कथं भवति किन्तु एट्लीस्ट् हि हेज् स्टार्टेड् लर्निङ्ग् वट् इट् इस् देन् ओन्ली इट् विल् कम् नो ग्रेजुट् तर्हि इदानीं मेन् न जातम् एतावता मेन् न जातं अच्छा तर्हि यह प्रयासं करोति सह एव मेन् मेन् साक्षात् प्रयासं करोति व्यवहारे साधनमपि करोति प्रकृतेः नियमानां पालनं करोति तर्हि सः प्राप्नुमः आ... तद् भवतु तद् भवतु तदानीमपि तद एलिवेटिङ्ग् फ्रोम् मेन्मेन् टु गाड् मेन् देवः भवति अन्ततो गत्वा यदा प्रतिष्ठितः भवति मार्गे तदानीं सः देवः भवति इति चिन्तयितुं शक्नुमः हा mm -hmm. आतवा, आतवा हा अस्तु अस्तु तर्हि यः पुरुषः प्रथमस्तरे अस्ति सः तु मुक्तिमोक्षम् अवश्यं प्राप्नोति अथवा अथवा अग्रिमजन्मनि तस्य मनुष्यरूपेण जन्म भवितुमर्हति मुक्तिमोक्षः अस्मिन् जन्मनि प्राप्तः चेदपि अग्रिमजन्मनि मनुष्यरूपेण तस्य जन्म अवश्यं भवति यः पुरुषः द्वितीय तृतीयस्तरे चतुर्थस्तरे अस्ति तस्य तस्य मनः मनसः अधोगमनं जातम् इति कृत्वा अग्रिमजन्मनि तु मनुष्यरूपेण तस्य शरीरम् अवश्यं न भवति तर्हि अग्रिमजन्मनि कीदृशशरीरं लभ्यते इति वयम् कर्तुं शक्नुमः इति अस्ति अत्र अस्तु तर्हि अत्र स्थगनं कुर्मः वा आं अस्तु धन्यवादः नमस्कारः नमस्कारः